ारत दम्भोदर्पोऽभिमानश्च क्रोधः पारुष्यमेव च अज्ञानं चाभिजातस्य आर्तसम्पदमासुरी बद्धा कामक्रोधपरायणा ई हन्ते कामभोगार्थम् अन्यायेनार्थसञ्चया chief kamdeya tato yantyadama भगवद्गीतासूपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्याय